वैशम्पायन उवाच एतावदुक्त्वा राजानम् प्रतिष्ठितशकुन्तला अथान्तरिक्षाद्दुष्यन्तम् वागुवाचा शरीरिणी ऋत्विक् सदा भस्त्रा मातापितुः सर्वेभ्यो ह्यङ्गमङ्गेभ्यः सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः आत्मा चैष सुतो नाम तथैव तव पौरव आहितम् ह्यात्मनात्मानम् परिरक्ष इमम् सुतम् अनन्याम् प्रतीक्षस्व मा वम् स्था शकुन्तलाम् एतत्तुष्यन्त धर्मतः मासि मासि रजोह्यासाम् दुष्कृतान्यपकर्षति रेतो धाः पुत्र उन्नयति नरदेवयमक्षयात् त्वम् चास्य धाता गर्भस्य सत्यमाह शकुन्तला जाया जनयते पुत्रमात्मनोऽङ्गम् द्विधा कृतम् तस्माद्भरस्व दुष्यन्त पुत्रम् जीवेज्जीवन्तमात्मजम् शाकुन्तलम् महात्मानम् दौष्यन्तीम् भरपौरव भर्तव्योऽयम् त्वया यस्मात् अस्माकम् वचनादपि तस्माद्भवद्वयम् नाम्ना भरतो नाम ते सुतः एवमुक्त्वा ततो देव ऋषयश्च तपोधनाः पतिव्रतेति संहृष्टाः पुष्पवृष्टिम् ववर्षिरे तच्छ्रुत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम् पुरोहितममात्यांश्च सम्प्रहृष्टोऽ ब्रवीदिदम् शृण्वन्त्वे तद्भवन्तोऽस्य देवदूतस्य भाषितं। अहम् चाप्येवमेवैनम् जानामि स्वयमात्मजम् यद्यहम् वचनादस्या गृह्णीयामि ममात्मजम् भवेद्धि शङ्क्यो लोकस्य नैव शुद्धो भवेदयम् वैशम्पाय न तम् विशोध्य देवदूतेन भारत हृष्टः प्रमुदितश्चापि प्रतिजग्राहतम् सुतम् ततस्तस्य तदा राजा पितृकर्माणि सर्वशः कारयामासमुदितः प्रीतिमानात्मजस्यः मूर्ध्नि चैनमुपाघ्राय स स्नेहम् परिशस्वजे सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः समुदम् परमाम् लेभे पुत्रसंस्पर्शजाम् नृपः ताम चैव भार्याम् दुष्यन्तः पूजयामास धर्मतः अब्रवीच्चैव ताम् राजा सान्त्वपूर्वमिदम् वचह कृतो लोकपरोक्षोऽयम् सम्बन्धो वै त्वया तस्मादे तन्मया त्वच्छुद्भ्यर्थम् विचारितम् ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः त्वाम् देवि पूजयिष्यन्ति निर्विशङ्कम् पतिव्रताम् मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् पुत्रश्चायम् वृत्तो राच्ये मया तस्माद्विचारितम् त्वयोक्तोऽस्म प्रियम् प्रिये प्रणयिन्या विशालाक्षि तत्क्षान्तम् ते मया शुभे अनृतम् वाप्यनिष्टम् वा दुरुक्तम् वापि दुष्कृतम् त्वयाप्येवम् विशालाक्षि क्षन्तव्यम् मम दुर्वचः क्षान्त्या पतिकृते नार्यः पातिव्रत्यम् व्रजन्तिताः तामेवमुक्त्वा राजर्षिर्दुष्यन्तो महिषीम् प्रियाम् वासोभिरन्नपानैश्च पूजयामासभारत स मातरमुपस्थाय रथन्तर्यामभाषत मम पुत्रो वने जातस्तव शोकप्रणाशनः ऋणादद्य विमुक्तोऽहमस्मि पौत्रेण ते शुभे विश्वामित्रसुता चेयम् कण्वेन च विवर्धित स्नुषा महाभागे प्रसीद पुत्रस्य वचनम् श्रुत्वा पौत्रम् सा परिशस्वजे पादयोः पतिताम् तत्र रथन्तर्या शकुन्तलाम् परिष्वज्य च बाहुभ्याम् हर्षादश्रूण्यवर्तयत् उवाच वचनम् सत्यम् लक्षय्यल्लक्षणानि च तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् दिव्यान् भवत्वं वरवर्णिनी त्वम् वरवर्णिनि एवमुक्ता रथन्तर्या परम् हर्षमवापसा शकुन्तलाम् तदा राजा शास्त्रोक्ते शास्त्रोक्तेनैव ततो ततोऽग्रमहिषीम् कृत्वा सर्वाभरणभूषिताम् ब्राह्मणेभ्यो धनम् दत्त्वा सैनिकानाम् च भूपतिः दुष्यन्तस्तु तदा तदा भरतम् नामतः कृत्वा यौवराज्येभ्यसेचयत् भरते भारमावेश्य कृतकृत्यो भवन्नृपः ततो वर्षशतम् पूर्णं राज्यं कृत्वा नराधिपः कृत्वा दानानि दुष्यन्तः स्वर्गलोकमुपेयिवान् तस्य तत्प्रथितम् चक्रम् प्रावर्तत महात्मनः भास्वरम् महत् सविजित्य महीपालांश्चकारवशवर्तिनः चचार च सताम् धर्मम् प्रापचानुत्तमम् यशः स चक्रवर्त्यासीत् सार्वभौमः प्रतापवान् ईजे च बहुभिर्यज्ञैर्यथाशक्रो मरुत्पतिः गोविततम नाम वाजिमेधम गोवितजिमेधम ववापस यस्ह्रम पद्मा कण्वाय भरतो दद भरता भारती कीर्तिद्भ भारत कुल अपरे पूे वै भारत विश्रुता भरत सौन्ववाए देवजस बभूवुब्रह्मकल्प बहवो राजज सतमा यमे नामयाशाथा मुख्यमं कत महाभागा सचवपरायण महाभार आदिपर्णिभवपर्वि शकुतलोपाख्या चतमोध्याय